श्रीहरये नमः अथ विंशोऽध्यायः श्रीशुक उवाच तयोस्तदद्भुदं कर्म दावाग्नेर्मोक्षमात्मनः गोपास्त्रीभ्यः समाशक्यो गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्यविस्मिताः मेनिरेदेव प्रवौहौ कृष्णरामौ व्रजं गतौ ततः प्रवार्ततः प्रावृट् सर्पसत्त्वसमुद्भवा विद्योतमानपरिधिर्विस्फोर्जितनभस्तला सविद्युत्स्तनयित् नुभिः अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ अष्टौ मासानि पीतं यत् भूम्याश्चोदमयं वसो स्वगोभिर्मोक्तुं मारेभे दडितवन्तो महामेघास्कण्ठस्वसनवेपिताः प्रीणनं जीवनं ह्यस्य मुमुषु करुणा इव तपःकृशादेव मीढा यतैव काम्यतपसस्तनो सम्प्राप्य निसामुकेषु कत्योतास्तमसा भान्तिनग्रहा यथा पापेन पाकण्डा न हि श्रुत्वा पर्जन्यनिनधं मण्डूकाव्यसृजन् गिरः तूष्णीं स आसन्मुत्पतवाहिन्यै शूत्रनद्योनुः सुष्यती हे पुंसो यथा स्वतन्त्रस्य देहद्रविणसम्पदः इन्द्रगोपैश्च लोहिताः उच्छीलीन्द्रकृतच्छाया नृणां श्रीरिवभूरभूत् क्षेत्राणि सस्यसम्बद्भिः कर्षकाणामुदं ददुः तनिनामुपतापं च दैवाधीनं अजानता जलस्तलौकसः सर्वे नववारिनिषेवया अभिप्रतृचिरं रूपं यताहरिनिषेवया शरिद्भिषङ्गत सिन्तु सुक्षुभे अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा गिरयो वर्षधारभिर्हन्यमानान विव्यतुः अभिभूयमाना व्यसनैर्यथा दोक्षजचेतसः मार्ग बभूवुस्सन्दिक्स्तास्तृणैश्चन्नाख्य संस्कृताः नाभ्यस्यमानाश्रुतयो द्विजयकालकथा इव लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः स्थैर्यं न पुरुषेषु गुणिष्विव धनुर्वियतिमाहेन्द्रं निर्गुणं च गुणयन्यभा व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा न रजोढु पश्चन्न स्वभासा पुरुषो यथा मोगागमोत्सवा गृष्ठा प्रत्यनन्दिकण्ठिनः गृहेषु तप्ता निर्विण्णा यथाश्च्युतजनागमे पीत्वा पः पादभापद्भिः आसन्नाना आत्ममूर्तयः प्राक्षामस्तपसा यथा कामानुसेवया सरस्वसान्तरोधस्तु न्यूषु रङ्गाभिसारसाखा गृहेष्वशान्तघृत्येषो ग्राम्या इव दुरासयाखा जलौघैर्निरभित्यन्त सेतवो वर्षतीश्वरे पाकण्डिनामसद्वाधैर् वेदमार्ग कलौ यथा व्यमुञ्चन् वायुभिर्नुन्नां भूदेभ्यो तामृतं गणाः यथाशिशो विस्पतय काले काले द्विजेरिताः एवं वनं तत्वर्शिष्टं पक्वघर्जूरजम्बुम गो गोपालैर्वृतो रन्तुं सफलः देनवो मन्दगामिन्य ऊधो भारेण भूयसा ययोर्भगवताहुता धृतं प्रीत्या स्नुतस्तनीः वनौकसः प्रमुदिता जलधारगिरेर्नाधान् आसन्नाधतृषे गुहाः क्वचित् वनस्पतिक्रोढे गुहायां चाभिवर्षति निर्विश्य भगवान् रेम कन्दमूलपलासनः तद्योधनं समानीतं शिलायां सलिलान्तिके सम्भोजनीयैर्बुभुजे गोपये शङ्कर्षणान्वितः साध्वलोपरि संविश्य सर्वतो मीलिते क्षणान् तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधो भरश्रमाखा प्रावृट श्रियं भगवान् पूजयाञ्चक्रे आत्मशक्त्युभृंहिता एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे सरत्समभवद् व्यभ्रा स्वच्छाम्बुपरुषानिलां शरतानीरजोत्पत्या नीराणि प्रकृतिं ययुः भ्रष्ठानामिव चेतांसे पुनर्योगनिषेवया व्योम्नोऽब्धम् भूतशाभल्यम् भुवः पङ्कमपामलं सरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभं सर्वस्वं जलताहित्वा विरेजुशुप्रवर्चसः यथा त्यक्तक्षणा शान्ता मनयो मोक्तकिल्बिशाखा गिरयो मुमुचुस्तोयं क्वचिन्नमुचुशिवम् यथा ज्ञानामृतं काले ज्ञानिनो दतते न नै वा नैवाविदं क्षीयमाणं जलं गादजले चराख यथायुरन्वहं क्षय्यं न रामोढाकुटुम्बिनः गातवारिश्चरस्तापम् अविन्दञ्चरदर्कजम् यथा धरित्रकृपणः कुटुम्ब्यभिजितेन्द्रियः शनैः शनैर्जघुःपङ्गं स्थलां यामं च वीरुदः यताहं ममतां धीरा शरीरादिश्वनात्मसु निश्चलाम्बुरभूतूष्णीं समुद्धृत्सरदागमे आत्मन्युपरते सम्यक् मुनिर्व्युपरदागमः केदारेभ्यस्तवभो गृह्णन् कर्षकादृटसेतुभिः यथा प्राणैस्वरज्ञानं तन्निरोदेन योगिनः शरदर्कान् सज्जां स्तापान् भूतानामुडुभोहर ते काभिमानजम्बोधो मुकुन्दो व्रजयोषितां कमशोभतनिर्मेकं शरत् विमलतारकं सत्त्वयुक्तं यथा चित्तं सप्तब्रह्मार्तदर्शनम् अकण्ठमण्डलो व्योम् निराराजवुडुकणैः शशि यथा यदुपतिकृष्णा वृष्णिचक्रावृतो भुवि आश्लिष्य स्तमसीदोष्णं प्रसूनवनमारुतं जनास्तापं जघोर्गोभ्य न कृष्णकृतचेतसखा गाभोमृकखानार्य पुष्पिण्यः शरदा भवन् अन्वीयमाना स्ववृक्षये फलैशक्रिया एव उदहृष्यन् वारिजानी सूर्योताने कुमद्विना राज्ञातु तु निर्भया लोका यथा दस्योन्विना नृपः पुरग्रामेष्वाग्रयणै इन्द्रियैश्च महोत्सवैः बभौ भो पक्वसष्याढ्या कलाभ्यां नितरां निर्गम्यार्तान् प्रपेधि रे वर्षरुद्धायता सिद्धा स्वपिण्डान् काल आगते इति श्रीमद्भगवते महापुराणे दशमस्कन्धे पूर्वार्धे प्रावृत् शरत्वर्णनं नाम विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथमगराज की जय